श्रीगुरुभ्यो नमः हरिः ओम् भर्तृहरितिशतकः मङ्गलाचरणम् दिक्कालाद्यनवच्छिन्नानन्तचिन्मात्रमूर्तये स्वानुभूत्येकमानाय नमः शान्ताय तेजसे प्रथमभागः मूर्घपद्धति बोद्धारो मत्सरग्रस्ताः प्रभवस्मयदूषिताः अबोधोपहताश्चान्ये जीर्णमङ्गे सुभाषितम् अज्ञः सुखमाराध्यः सुखतरमाराध्यते विशेषज्ञः ज्ञानलवदुर्विदग्धम् ब्रह्मापि तम् नरम् नरञ्जयति प्रसह्यमणिमुद्धरेन्मकरभक्तदंष्टान्तरात् समुद्रमपि सन्तरेत्प्रचलदूर्मिमालाकुलम् भुजङ्गमपि कोपितं सिरसि शिरसि पुष्पवद्धारयेत् न तु प्रतिनिविष्टमूर्घजनचित्तमाराधयेत् लभेतसिकतासु तैलमपि यत्नतः पीडयन् पिबेच्च मृगतृष्णिकासु सलिलम् कदाचिदपि पर्यटन् शशविषाणमासादयेत् न प्रतिनिविष्टमूर्घजनचित्तमाराधयेत् व्याळम्बालमृणालतन्तुभिरसौ रोद्धुम् भते। भेत्तुम् वज्रमणिम् शिरीषकुसुमप्रान्तेन सन्नह्यते। माधुर्यम् मधुबिन्दुना रचयितुम् क्षाराम्बुधेरीहते मूर्घान्यः प्रतिनेतुमिच्छति बलात् सूक्तैः सुधास्यन्दिभिः स्यायत्तमेकांतहितं विधात्राविनिर्मितं विनिर्मितम् चादनमज्ञताया समाजे विभूषणम् मौनम यदा किञ्चिदज्ञोऽहम् दिप इव मदान्तः समभवम् तदा सर्वज्ञोऽस्मीत्यभवदवलिप्तम् मम मनः यदा किञ्चित् किञ्चित् बुधजनसकाशादवगतम् तदा मूर्घोऽस्मीति ज्वर इव भृमिकुलचित्तम् लालाक्लिन्नम् विगन्धिजुगुप्सितम् निरुपमरसम् प्रीत्या खादन्खरास्ति निरामिषम् सुरपतिमपि श्वपार्श्वस्थम् विलोक्य न शङ्कते न हि गणयति क्षुद्रो जन्तुः परिग्रहफल्गुताम् शिरः सार्वम् स्वर्गात् पशुपतिशिरस्तः क्षितिधरम् महीध्रादुत्तगादवनिमवनेश्चापि जलधिम् अधो गङ्गाशेयम् पदमुपगता स्तोकमधवा विवेकभ्रष्टानाम् भवति विनिपातः शतमुखः शक्यो वारयितुम् जलेन हुतभृक्षत्रेण सूर्यातपो नागेंद्रो निशिताङ्कुशेन समदो दण्डेन गौर्गर्धभः व्याधिर्भेषजसङ्ग्रहैश्च विविधैर्मन्त्रप्रयोगैर्विषम् सर्वस्यौषधमस्ति शास्त्रविहितम् मूर्खस्य नास्त्यौषधम् विद्वत्पद्धति शास्त्रोपस्कृतशब्दसुन्दरगिरः शिष्यप्रदेयागमा विख्याताः कवयो वसन्ति वसुधादिपस्य सुधियस्त्वर्धम् विनापीश्वराः कुत्स्यास्युः कुपरीक्षकैर्नमणयो यैरर्गतः पातिताः हर्तुर्याति न गोचरम् किमपि शम् पुष्णाति यत्सर्वदाप्यर्धभ्यः प्रतिपाद्यमानमनिशम् प्राप्नोति वृद्धिम् पराम् कल्पान्तेष्वपि न प्रयाति निधनम् विद्याख्यमन्तर्धनम् येषाम् तान् प्रतिमानमुज्झत नृपाः कस्तैः सह स्पर्धते परिगतपरमार्धान्पण्डितान्मावमंस्ताः तृणमिव लघुलक्ष्मीर्नैव तान् संवृणद्धि अभिनवमदरेखा श्यामगण्डस्थलानाम् न भवति विशतन्तुर्वारणम् वारणानाम् अम्भोजिनीवनविहारविलासमेव हंसस्य हन्तु नितराम् कुपितो विधाता नत्वस्य दुग्धजलभेदविधौ प्रसिद्धाम् वैदग्ध्यकीर्तिमपहर्तुमसौ समर्थः कियूराणि न भूषयन्ति पुरुषम् हारा न चन्द्रोज्ज्वला न स्नानम् न विलेपनम् वाक्येणा समलङ्करोति पुरुषम् या संस्कृता धार्यते क्षीयन्तेऽखिलभूषणानि सततम् वाग्भूषणम् भूषणम् विद्या नाम नरस्य रूपमधिकम् प्रच्छन्नगुप्तम् धनम् विद्या भोगकरी सुखकरी विद्या गुरूणाम् गुरुः विद्याबन्धुजनो विदेशगमने विद्यापरा देवता विद्याराजसु पूज्यते न हि धनम् विद्याविहीनः पशुः क्षान्तिश्चेत्कवचेन किम् किमरिभिः क्रोधोऽस्ति चेद्देहिनाम् ज्ञातिश्चेदनलेन किम् यदि सुहृदिव्यौषधैः किम् फलम् किम् सर्पैर्यदि दुर्जनाः किमु धनैर्विद्यानवद्या यदि व्रीडा चेत् किमु भूषणैः सुकविता यद्यस्तिराद्येन किम् दाक्षिण्यम् स्वजने दया परिजने साक्ष्यम् सदा दुर्जने प्रीतिः साधुजने न यो नृपजने विद्वज्जने चार्जवम् शौर्यम् शत्रुजने क्षमा गुरुजने कान्ताजने धृष्टत ये चैवम् पुरुषाः कुशलास्तेष्वेव लोकस्थितिः जाड्यम् धियो हरति सिञ्चति वाचि सत्यम् मानोन्नतिम् दिशति पापमपाकरोति चेतः प्रसादयति दिक्षु तनोति कीर्तिम् सत्सङ्गतिः कथय किम् न करोति पुंसाम् जयन्ति ते सुकृतिनो रससिद्धाः कवीश्वराः नास्ति तेषाम् यशः काये जरामरणजम् भयम् मौनशौर्यपद्धति क्षुतोक्षमोऽपि जराकृशोऽपि शिथिलप्रायोऽपि कष्टाम् दशाम् आपन्नोऽपि विपन्नदीदितिरपि प्राणेषु नश्यत् नश्यत्स्वपि मत्तेभीन्द्रविभिन्नकुम्भपिसितग्रास्तैकबद्धःस्पृहः किम् जीर्णम् तृणमत्तिमानमहितामग्रेसरः केसरी स्वल्पस्नायुवसावसेकमलिनम् निर्मांसमप्यस्थिगोः श्वा लब्ध्वा परितोषमेति न तु तत्तस्य क्षुधा शान्तये सिंहो जम्बुकमङ्कमागतमपि त्यक्त्वा निहन्ति द्विपम् वञ्चति जनः सत्त्वानुरूपम् फलम् लाङ्गूलचालनमथश्चरणावघातम् भूमौ निपत्यवदनोदरदर्शनम् च श्वापिण्डदस्य कुरुते गजपुङ्गवस्तु धीरम् विलोकयति चाटुशतैश्च भुङ्क्ते परिवर्तिनि संसारेऽमृतः को स येन जातेन याति यातिवंशः समुन्नतिम् कुसुमस्तबकस्येव द्वयी वृत्तिर्मनस्विनः मूर्ध्नि वा सर्वलोकस्य सीर्यते वन एव वा सञ्चन्येऽपि सम्भाविताः पञ्चषाः तान प्रत्येश तान् प्रत्येषविशेषविक्रमरुचिराहुर्न वैरायते द्वावेवग्रसते दिवाकरनि च प्राणेश्वरौ भास्करौ भ्रातः पर्वणि पश्यदा शीर्षावशेषाकृतिः वहति भुवनश्रेणिम् शेषः फणा फलकस्थिताम् कमठपतिना मध्ये पृष्टम् सदा स च धार्यते तमपि कुरुते क्रोडाधीनम् पयोधिरनादरात् अहमहताम् निःसीमानश्चरित्रविभूतयः वरम् प्राणोच्छेदः समदमघवन्मुक् दहनोद्गार सुनो तुषाराद्यरेहसूनोरहः पितरिक्लेशविवशे न चासौ संपातह पयसि पयसाम् पत्युरुचितः यदचेतनोऽपि पादैः स्पृष्टः प्रजलति सवितुरिनकान्तः तत्तेजस्वी पुरुषः परकृतनिकृतम् निकृतिम् कथम् सहते सिंहः शिशुरपि निपतति मदमलिनकपोलभित्तिषु गजेषु प्रकृतिरियम् सत्त्ववताम् न खलु वयस्तेजसाम् हेतुः अर्धपद्धति जातिर्यातु रसातलम् गुणगणैस्तत्राप्यथो गच्छता शीलम् शैलतटात्पतत्वभिजनः सन्दह्यताम् वह्निना शौर्ये वैरिण वज्रमासुनिपतत्वर्धोऽस्तु नः केवलम् येनैकेन विना गुणस्तृणलवप्रायाः समस्ता इमे यस्यास्ति वित्तं स नरः कुलीनः सपण्डितः सश्रुतवान्गुणज्ञः स एव वक्ता स च दर्शनीयः सर्वे गुणाः काञ्चनमाश्रयन्ति दौर्मन्त्र्यान्नृपतिर्विवश्यति यतिः सङ्गात् सुतोलालनात् विप्रोऽनध्ययनात्कुलम् कुतनयश्चीलम् खलोपासनात् ह्रीर्मद्यादनवेक्षणादपि कृषिः स्नेहः त्यागप्रमादा धनम् दानम् भोगो नाशस्ति स्रोगतयो भवन्ति वित्तस्य यो नददाति ददाति न भुङ्क्ते तस्य तृतीया गतिर्भवति मणिः शाणोल्लीढः समरविजयीहेति दलितो मदक्षीणो नागः शरदि सरितः श्यानपुलिनाः कलाशेषश्चन्द्रः सुरतम् मृदिता बालवनिता तनिम्ना शोभङ्ते गलितविभवाश्चार्तिषु नराः परिक्षीणः कश्चित् स्पृहयति यवानाम् प्रसृतये स पश्चात्सम्पूर्णः कलयति धरित्रीम् तृणसमा अतश्चानेकान्ता गुरुलघुतयार्थेषु अवस्था अवस्थावस्तूनि प्रथयति च सङ्कोचयति च राजन् दुदुक्षसि यदिक्षितिधेनुमेताम् तेनाद्यवत्समिव लोकममुम् पुषाण तस्मिम् च सम्यगनिशम् परिपोष्यमाणे नानाफलैः फलति कल्पलतेव भूमिः सत्यानृता च परुषा प्रियभाषिणी च हिंस्रादयालुरपि चार्दपरावधान्य नित्यव्यया प्रचुरनित्यधनागमा च वाराङ्गनानेव वाराङ्गनेव नृपुनीतिदनेकरीतिः आज्ञा कीर्तिः पालनम् दानं भोगो मित्रसंरक्षणम् च येषामेते षड्गुणा प्रवृत्ताः ोऽर्ध्वोऽस्तेषाम् पार्थिवो वाश्रयेण यद्धात्रा निजफालपट्टलिखितम् स्तोकम् महद्वाधनम् तत्प्राप्नोति मरुस्थलेऽपि नितराम् मेरौ च नाधिकम् तद्धीरो भव वित्तवत्सुकृपणाम् वृत्तिम् रुधा मा कृधाः कूपे पस्य पयोनिधावपि घटो दुर्जनपद्धति अकरुणत्वमकारणविग्रहः परधने परयोषित च सुजनबन्धुजनेष्व सहिष्णुता प्रकृतिसिद्धमिदम् हि दुरात्मना दुर्जन परिहर्तव्यो विद्यया अलङ्कृतोऽपि सन् मणिना भूषितः सर्पः किमसौ न जाड्यम् ह्रीमतिगण्यते गण्यते दम्भः शुचौ कैतवम् सूरे निर्घृणता मुनौ विमतिता दैन्यम् प्रियालापिनी वलिप्तता मुखरता वक्तव्यशक्तिस्थिरे ततको नाम गुणो भवेत्स गुणिनाम् यो दुर्जनैर्नाङ्कितः लोभश्चेदगुणेन किम् पिशुनता यद्यस्ति किम् पातकैः सत्यम् चेत्तपसा च बलेन महिमा यद्यस्ति किम् मण्डनैः सद्विद्या यदि किम् धनैरपयशो यद्यस्ति किम् मृत्युना सरो गलित सरोगितयौवना कामिनी सरो विगत विगतवारिजम्मुखमनक्षरम् स्वकृतेः प्रभुर्धनपरायणः सततदुर्गतिः सज्जनो नृपाङ्गणगतः खलो मनसि सप्तशल्यानि मे न कश्चिच्चण्डकोपानाम् आत्मीयो नामभूभुजाम् होतारमपि जुह्वानम् स्पृष्टो दहति पावकः मौनान्मूकः प्रवचनपटुर्वाचको जल्पको वा दृष्टः पार्श्वे भवति च वसन् दूरोतोऽप्यप्रगल्भः क्षान्त्याभिरुर्न नसहते ना प्रायशो नाभिजातः सेवाधर्मः परमगहनो योगिनामप्यगम्यः उद्भासिताखिलखलस्य विशृङ्घलस्य प्रोद्गाढविसृतनिजातमः कर्मवृत्तेः दैवादवाप्तविभवस्य गुणद्विषोऽस्य नीचस्य गोचरगतै सुखमाप्यतेकैः आरम्भगुर्वीक्षयिणी क्रमेण लघ्वी पुरा वृद्धिमुपैति पश्चात् दिनस्य पूर्वार्धपरार्धभिन्ना चायेव मैत्रीखलसज्जनानाम् मृगमीनसज्जनानाम् तृणजलसन्तोषविहितवृत्तीनाम् लुब्धकधीवरपिशुना निष्कारणमेव वैरिणो जगति सुजनपद्धति वाञ्छासज्जनसङ्गतौ परगुणे प्रीतिर्गुरौ नम्रता विद्यायाम् व्यसनम् स्वयोषितिरतिर्लोकोपवादात् भयम् भक्तिः शूलिनि शक्तिरात्मदमने संसर्गमुक्तिः येष्वे ते निवसन्ति निर्मलगुणास्तेभ्यो नमः कुर्महे विपदि धैर्य धैर्यमधाभ्युदये क्षमा सदसि वाक्पडुता युधिविक्रमः यशसि चाभिरुचिम् व्यसनम् श्रुतौ प्रकृतिसिद्धमिदम् हि महात्मना करे श्लाघ्यस्त्यागः शिरसि गुरुपादप्रणयिता मुखे सत्या वाणी विजयभुजयोर्वीर्यमतुलम् हृदि स्वच्छावृत्तिः श्रुतिमधिगतम् च श्रवणयोः विनाप्यैश्वर्येण प्रकृतिमहताम् मण्डनमिदम् णाघातान्निवृत्तिः परधनहरणे संयमः सत्यवाक्यम् काले शक्त्या प्रधानम् जनकधा, मूकभावः परेषाम् तृष्णा स्रोतो विभङ्गो गुरुषु च विनयः सर्वभूतानुकम्पा सामान्यः सर्वशास्त्रेष्वनुपहत विधिः श्रेयसामेषपन्थाः सम्पत्सु महताम् चित्तम् भवेदुत्पलकोमलम् आपत्सु च महाशैलशिलासङ्घातकर्कशम् प्रिया न्यायावृत्तिर्मलिनमसुभङ्गेऽप्यसुकरम् त्वसन्तो नाभ्यर्था सुहृदपि न याच्यः कृशधनः विपद्युच्चैर्यम् पदमनुविधेयम् च महताम् सताम् केनोद्दिष्टम् प्रदानं प्रदानम् प्रच्छन्नम् गृहमुपगते सम्भ्रमविधिः प्रियम् कृत्वा मौनं सदसिकधनं कथनम् चाप्युपकृतेः अनुत्सेको लक्ष्म्याम् निरभिभवसाराः परकधा, सताम् केनोद्दिष्टम् विषममसि धाराव्रतमिदम् सन्तप्तायसि संस्थितस्य पयसो नामापि न मुक्ताकारतया तदेव पत्रस्थितं दृश्यते अन्तः सागरशुक्तिमध्यपतितम् तन्मौक्तिकम् जायते एनाथमम् विधा वृत्तयः यः सुचरितै पितरं सपुत्रो यद्भर्तुरेव हितमिच्छति तत्कलत्रम् तन्मित्रमापदि सुखे च समक्रियम् यदेतत्त्रयम् जगति पुण्यकृतो लभन्ते नम्रत्वेनो नन्नमतः परगुणकथनै स्वान्गुणान् ख्यापयन्तः स्वार्थान्सम्पादयन्तो विततपृथुतरारम्भयत्नाः परार्धे क्षान्त्यैवाक्षेपवृक्षाक्षरमुखरमुखा दुर्जनान् दुः दुःखयन्तः सन्तः साश्चर्यचर्या जगति बहुमताः कस्य नाभ्यर्चनीयाः परोपकारपद्धति भवन्ति नम्रास्तरवः फलोद्गमैः नवाम्बु विनो घनाः अनुद्धताः सत्पुरुषाः समृद्धिभिः स्वभाव एव परोपकारिणम् श्रोत्रम् श्रुतेनैव न दानेन पाण्यर्न तु कङ्कणेन विभूतिकायः करुणपराणाम् परोऽपकारेण न चन्दनेन पद्माकरम् दिनकरो विकचम् करोति चन्द्रो विकासयति कैरवचक्रवालम् नाभ्यर्थितो जलधरोपि जलम् ददाति सन्तः स्वयम् परहिते विहिताभियोगाः एते सत्पुरुषाः परार्धघटकाः स्वार्थान् परित्यज्ये सामान्यास्तु परार्धमुद्यमभृतः स्वार्थाविरोधेन ये तेमीम् मानुषराक्षसाः परहितम् स्वार्थाय निघ्नन्ति ये ये तु घ्नन्ति निरर्थकम् परहितम् ते के न जानीमहे पापान्निवारयति योजयति हिताय गुह्यम् निगूहति गुणान् प्रकटीकरोति आपद्गतम् च न जहाति ददाति काले सन्मित्रलक्षणमिदम् प्रवदन्ति सन्तः क्षीरेणात्मगतोदका य हि गुणा दत्ताः पुरा तेऽखिला क्षीरोत्तापमवेक्ष्य तेन पयसा स्वात्मा कृशा गन्तुम् पावकमुन्मुनस्तन्दभवद्दृष्ट्वा तु मित्रापदम् युक्तम् तेन जलेन शाम्यति सताम् मैत्री पुनस्त्वीदृशी इतः स्वपितै केशवः कुलमितस्तदीयद्विषा अमितश्च शरणार्थिनाम् शिखरिणाम् गणाः इतोऽपि बडबानलः समुक्त समुक्तसंवर्तकैर् अहो विततमूर्जितम् बर सहञ्च सिन्धोर्वपुः जातः कूर्मः स एकः पृथुभुवनभरायार्पितम् जन्मध्रुवस्य भ्रमति नियमितं। यत्र तेजस्विचक्रम् सञ्जातप्यर्थपक्षाः ब्रह्माण्डो चाधो ब्रह्माण्डोदुम्बरान्तर्मशकवदपरे जन्तवो जातनस्थाः तृष्णाम् छिन्दिभजक्षमाम् जहिमदम् पापे रतिम् अकृधाः सत्यम् ब्रूह्यनु याहि साधु पदवीम् सेवस्य विद्वज्जनम् मानय विद्विषोऽप्यनुनय प्रख्यापय प्रश्रयम् कीर्तिम् पालय दुःखिते कुरुदया दयामेतत्सताम् चेष्टितम् मनसि वचसि काये पुण्यपीयूषपूर्णाः त्रिभुवनमुपकारश्रेणिभिः प्रीणयन्तः परगुणपरमाणून्पर्वती कृत्यनित्यम् निजकृति विकसन्तः सन्ति सन्तः कियन्तः धैर्यपद्धति रत्नेर्महाब्धेस्तुतु शुर्न देवा न भेजिरे भीमविषेण भीतिम् सुधाम् विना न प्रदयुर्विरामम् न प्रारभ्यते न खलु प्रारभ्य विघ्ननिहिता निहता विरमन्ति मध्या विघ्नैः पुनः पुनरपि प्रतिहन्यमानाः प्रारब्धमुत्तमजना न परित्यजन्ति क्वचित् पृथ्वी शय्यः क्वचिदपि च पर्यङ्कशयनः क्वचिच्चाकाहारः क्वचिदपि च शाल्योदनरुचिः क्वचित् कन्धाधारी क्वचिदपि च दिव्याम्बरधरो मनस्वी कार्यार्थी न गणयति दुःखम् न च सुखम् निन्दन्तु नीतिनिपुणा यदि वा स्तुवन्तु लक्ष्मीः समाविशतु गच्छतु वा यथेष्टम् अद्य वा मरणमस्तु युगान्तरे न्यायात्पथः प्रविचलन्ति पदम् न धीराः कान्ताकटाक्षविशिघा न घनन्ति यस्य चित्तम् न निर्दहति कोपकृशानुतापः कर्षन्ति भूरिविषयाश्च न लोपपाशैः लोकत्रयम् जयन्ति कृत्स्नमिदम् स धीरः कदर्थितस्यापि हि धैर्यवृत्तेः न शक्यते धैर्यगुणः प्रमार्जुम् अधोमुखस्यापि कृतस्य वह्नेः नाथः शिखायाति कदाचिदेव वरम् तुङ्गा शृङ्गाद्गुरुशिखरिणः क्वापि विषमे पतित्वायम् कायह कठिनदृषतन्ते विदलितः वरम् न्यस्तो हस्तः पणिपतिमुखे तीक्ष्णदशने वरम् वह्नौ पातस्तदपि न शीलविलयः वह्निस्तस्य जलायते जलनिधिः कुल्यायते तत्क्षणान् मेरुस्वल्पशिलायते ङ्गायते व्यालोमाल्यगुणायते विशरसः पीयूषवर्षायते यस्याङ्गेऽखिलोकवल्लभतमम् शीलम् समुन्मीलति छिन्नोऽपि रोहति तरुक्षीणोऽप्युपचीयते पुनश्चन्द्रः इति विमृशन्तः सन्तः सन्तप्यन्ते न विप्लुता लोके ऐश्वर्यस्य विभूषणम् सुजनता शौर्यस्य वाक्संयमो ज्ञानस्योपशमस्रुतस्य विनयो वित्तस्य पात्रे व्ययः अक्रोधस्तपसः क्षमा प्रभवितुर्धर्मस्य निर्व्याजता सर्वेषामपि सर्वकारणमिदं सीलं परम् भूषणम् दैवपद्धति नेता यस्य बृहस्पतिः प्रहरणं वज्रं सुराः सैनिकाः स्वर्गो दुर्गमनुग्रहः खलु हरेरैरावणोवारणः ऐत्याश्चर्यबलान्वितोऽपि बलभिद्दग्नः परैः सङ्गरे तद्व्यक्तम् ननु दैवमेव शरणम् दिग्दिग्धृदा पौरुषम् भग्नाशिष्यकरण्डपिण्डिततनोर्म्लानेन्द्रियश्च क्षुधा कृत्वा गुर्विवरम् स्वयम् निपतितो नक्तम् मुखे भोगिनः तृप्तस्तत्पिसितेन सत्वरमसौ तेनैव यातः पध स्वस्थास्तिष्ठतदैवमेव हि क्षये कारणम् यथा कन्दुकपातेनोत्पतत्यार्यः पतन्नपि तथा त्वनार्यः पतति मृत्पिण्डपतनम् यथा खर्वाटो दिवसेश्वरस्य किरणैः सन्ताडितो मस्तके वाञ्छन् देशमनातपम् तत्राप्यस्य महाफलेन पतता भग्नम् शशब्दम् शिरः यो गच्छति यत्र दैवहतक तत्रैव यान्त्यापदः गजभुजङ्गविहङ्गमबन्धनम् शशिदिवाकरयोर्ग्रहपीडनम् मतिमताम् च विलोक्य दरिद्रताम् विधिरहो बलवानिति मे मतिः सृजति तावदशेषगुणाकरम् पुरुषरत्नमलङ्करणम् भुवः तदपि तत्क्षणभङ्गिकरोति चेदहः कष्टमपण्डिताविधेः अयममृतनिधानम् नायकोऽप्योषधीनाम् शतबिषगनुयातः शम्भुमूर्ध्नोऽवतम् सः विरहयति न चैवम् राजयुक्ष्माशशाङ्कम् हतविधिपरिपाकः केन वा लङ्घनीयः प्रियसख विपद्दण्डाघातप्रपाता परम्परा परिचयबले चिन्तावचक्रे निधाय विधिः बलात् मृदमिव बलात्पिण्डीकृत्य भ्रमयति मनो नो जानीमः किमत्र विधास्यति विरमविरमाया सादस्माद्दुरध्यवसायतो विपदि महताम् धैर्यध्वंसम् यदिक्षितु महयसे मीहसे ऐजडविधे कल्पायेऽप्यपेतनिचक्रमाः कुलशिखरिणः क्षुद्रानैव नैतेन वा जलराशयः दैवेन प्रभुणा स्वयम् जगत् यज्ञस्य प्रमाणीकृतम् तत्तस्योपनमेन्मनागपि महान्नैवाश्रयः कारणम् सर्वाशा परिपूरके जलधरे वर्ष्य प्रत्यूक्ष पतं चातको बिंदव कर्म पद्धति नम नमस्यामो देवा ननुहत विधेस्ते वशगा विधिव्यशोतिकद फलम् कर्मा यत्तम् यदि किममरैः किम् च विधिना नमस्तर्कर्मेभ्यो विधिरपि न येभ्यः प्रभवति ब्रह्मा येन कुलालवन्नियमितो ब्रह्माण्डभाण्डोदरे विष्णुर्येण दशावतारगहने क्षिप्तो महासङ्कटे रुद्रो येन पुटके भिक्षाटनम् सेवते सूर्यो भ्राम्यति नित्यमेव गगने तस्मै नमः कर्मणे या करोति विदुषो मूर्खान् हितान्वेषिणः प्रत्यक्षम् कुरुते परोक्षमृतम् हालाहलम् तत्क्षणात् तामाराधय सत्रियाम् भगवतीम् भोक्तुम् फलम् हे साधो व्यसनैर्गुणेषु पुलेष्वास्थाम् वृथा माकृधाः शुभ्रम् सद्मसविभ्रमा युवतय श्वेतातपत्रोज्ज्वला लक्ष्मीरित्यनुभूयते चिरमनुंस्यूते सुभे कर्मणि विच्छिन्ने नितरा मनःङ्गकलः क्रीडात्रुटत्तन्तुकम् मुक्ताजालमिव प्रयाति झुडिति भ्रश्य दिशो दृश्यता गुणवदवगुणवद्वाक् कुर्वता कार्यमादौ परिणतिरवद्धार्य यत्नतः पण्डितेन अतिरभसकृतानाम् कर्मणामाविपत्तेर्भवति हृदयदाही शल्य तुल्यो विपाकः स्थाल्याम् वैढोर्यमय्याम् पचति तिलकणांश्चन्दनैरिन्धनौघैः सौवर्णैर्लाङ्गलाग्रैर्विलिखति वसुधामर्कतूलस्य हेतोः छित्त्वा कर्पूरखण्डान्वृतिमिह कुरुते कोद्रवाणाम् समन्तात् प्राप्येमाम् कर्म भूमिम् न भजति मनुजो यस्तोपमन्दभाग्यः नैवाकृतिः फलति नैव कुलम् न शीलम् विद्यापि नैव न च यत्र कृतापि सेवा भाग्यानि पूर्वतपसा खलु सञ्चितानि काले फलन्ति पुरुषस्य यथैव वृक्षाः मज्जत्वम् भसियातु यातु मेरुशिखरम् शत्रूञ्जयत्वा हवे वाणिज्यम् कृषिसेवनादिसकला विद्याः कला शिक्षिता आकाशम् विपुलम् प्रयातु भगवत्कृत्वा प्रयत्नम् परम् नाभाव्यम् भवतीह कर्मवशितो भाव्यस्य नाशक् वने रणे शत्रुजलाग्निमध्ये वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा सुप्तम् प्रमत्तम् विषमस्थितम् वा रक्षन्ति पुण्यानि पुराकृतानि वने रणे शत्रुजलाग्निमध्ये महार्णवे पर्वतमस्तके वा सुप्तम् प्रमत्तम् विषमस्थितम् वा रक्षन्ति पुण्यानि पुराकृतानि भीमम् वनम् भवति तस्य पुरम् प्रधानम् सर्वो जनः सुजनतामुपयाति तस्य कृत्स्ना सन्निति रत्नपूर्वा पूर्णा यस्यास्ति पूर्वसुकृतम् विपुलम् नरस्य भीमम् वनम् भवति तस्य पुरम् प्रधानम् सर्वो जनः सुजनतामुपयाति तस्य कृत्स्ना सन्निति सन्निधिरत्नपूर्णा यस्यास्ति पूर्वसुकृतम् विपुलम् नरस्य दिस् इस् प्रसेण्टेड् बै डाक्टर् गोलि आञ्जनैलू तेनालि ॐ शान्तिः शान्तिः शान्तिः